गणेशपुराणं क्रीडाखण्डम् अध्यायं 68, एय्ट् क उवाच तदो दैत्योबाणयुगं मन्द्रयामाससादरं निद्रास्त्रेण तदा चैकं गन्धर्वास्त्रेण चापरं वाम जानुं पुरस्ताप्य जामाकृष्य ससर्जतौ तयोः शब्देन सहसा चकम्बे भुवनत्रयं एकः सैन्ये निपतितो परो देवसमीपदः तदस्तालामृदङ्गाश्च गन्धर्वाप्सरसस्तथा गाननृत्यानि चित्राणि पुरो पश्यद्विनायकः पदितानि शस्त्राणि न बु बोधकरा तदा मोहितो मञ्चुलर वै कर्तव्यं नाभ्यपद्यत सैनिकासुषु पुः सर्वे निद्रास्त्रेण विमोहिताः निशामुखे यथा बाला अव्यवस्तं हि स्त्रियोऽपि चाधता सर्वा सुषुपुर्विगतत्रपाः देवान्तगोपश्य देवं जहर्ष च जगर्ज च ततः गुल्मानि परितो बहु देवसैन्यस्य महदो बलीवीरयुतानि च चक्रे कुण्ठं त्रिकोणं च भूमिसाधनपूर्वकम् असृकुम्भान् समानीय शतसङ्ख्यान् प्रयत्नतः स्नात्वा पद्मासनं चक्रे नानाप्रदेषु सादरं दैत्यान्निहत्य शदशो मांसराशिं महत्तरम् चकाराभिचरम् दैत्यो वह्निं स्थाप्य यथाविधि दिगम्बरोजहावाध मांसानिमन्त्रपूर्वकम् सहस्रे दुहृदे पश्चाद्बलिपूर्णाहुदिम् च यः चकारकुण्ठमध्ये सोपश्यच्चक्रिम् नरमांसा नि तस्यैः स ददौ पादुं च तान् खडान् अधृप्तां तां परिज्ञायप्रेदान्यानधार्पयत तदसा बहिराया दाव्योमकेशी भयङ्करा विशालगर्तनेत्रापि करालवदनारुणा उवाच परमप्रेदानादयन्दीदिशो दश तृप्तास्मि रक्त मांसैस्ते न भयं विद्यते क्वचिद तामुवाचाध दैत्योऽपि पुपूजे भक्तिभावदः उपचारैषोडशभिप्रणिपादपुरःसरम् तदो दिव्याम्बरधरो नानालङ्कारभूषितः देव्या अङ्गं समासाद्य जगर्जबलवत्तरं सोड्डीयते न सहिता नभस्येव स्थिता भवद नानाशस्त्रधरासोऽपि धनुर्बाणधरो बभौ कामुवाच रौद्रकेदुपुत्रः परमहर्षितः कश्यपश्यात्मजो बालश्चञ्जलो बहुलं पुरा इदानीमत्र किं तेन कर्तव्यं कुचरेण मे इदानीं सर्वसैन्यानि नाशयिष्ये तवाग्रतः एवं ब्रुवदि दैत्येन्द्रे काशीराजोऽशृणोध्वजः तदो विनायकं राजा बोधयामास सादरं काशीराजोवाच भोधभव्यभविष्यज्ञकथ मायां न बुध्यसे गान्धर्वीदैत्यरचितां कथं सक्तोऽसि तत्र वै निर्मिदां राक्षसीमिव सासैन्यं नाशयिष्यति ते सावधानमना भव क उवाच एवं नृपवच श्रुत्वा सावधानमना विभुः बोध्वा तज्ज्ञानदृष्ट्यैव सर्वं मायामयं तदा शरद्वयं विनिष्कृष्य मन्त्राभ्यां परिमन्त्र्य च खण्डास्त्रेण खगास्त्रेण श्रोत्राकर्षणसम्भमाद विनायको मुमोचाध तौ बानौ वेगवत्तरौ गर्जन्तौ कनवद्रुग्मपुङ्खै मारुदवेगिनौ सहसाच्छादयन्तौ च सहस्रकरमण्डलं खण्डानादसमभवन्महान् सर्वविमोहनः तदो खण्डास्वनां श्रुत्वा प्रोत् स्तु सर्वसैनिकाः सिद्धयः सर्ववीराश्च युयुधुशत्रबाणयः अपरस्तस्य सैन्येषु मुक्तो बाह्खगास्त्रदः तदखगाप्रादुरा सन्नानारूपा महौजसः पक्षवादेन तेषां तद्गान्धर्वं लयमागदम् अन्धकारं यथा सूर्यसारथेरुदयान्मुने तदस्ते पक्षिणः सर्वे बभक्षोर्दैत्यसैनिकान् पक्षाखादहदा केजित् केजिद्भीत्यैव पदिता दैत्या प्राणान्विहाय च हाहाकारो महानासीद् दैत्यसैन्येषु सर्वशः तदो देवांतको रोशात् खड्गास्त्रं तदा, तस्य धन्वीं समाकर्ण्य चुक्षुभे सैन्यसागरः दिग्गजाश्च तथा खड्गा असङ्ख्यादा विनिसृताः वह्निमन्त्रश्च सङ्घट्टात् सेनयोरुभयोरपि अग्निदग्धास्तदा देवा निभेदोर्धरणीतले खगाश्च निगधा केजित् केजिद्दग्धास्तधाग्निना अपरे ययुरन्तर्धिदिश्यश्चाधचकाशिरे असङ्ख्यखड्गप्रभया सेनाचक्षुर्महोमुषा खड्गवृष्ट्या विनिषदा देवास्पे दुर्धरातले केषाञ्चित् बाहवच्छिन्नाः केषाञ्चिन्मस्तकाः जठरे जानुभागे च पृष्ठभागे परा सताः निपे गदासवः अष्टसिद्धिकृताः सर्वाः विनाशिताः अशृह्नद्यो यादा यादाप्रेतवहास्तदा विनायकस्तदो दृष्ट्वा दैत्यस्य अद्भुतविक्रमं बाणं निष्कास्य सुदृढं वज्रास्त्रेणाभिमन्द्र्य च आक्रन्दनेन महदा दैत्यसैन्ये मुमोचतम् पर्वताश्च शब्देन पतिता भुवि तदस्त्रानल संयोगाद् दिग्दाहः समजायत दे दीप्यमानं सहसाच्छादयन्विमण्डलं पक्षिणो निहदा दग्धास्तेजसा तस्य केचन खण्डितं तेन सहसा खड्गास्त्रं तत्सहस्रशः निर्दधाः तदा दैत्यसेनां वज्रैरनेकशः सहस्रशो निगण्यन्ते एकया वज्रधारया यतो यदो गमद्दैत्यस्तत्र तत्रापतच्च तद चुचूर्णमस्तकान् पादान् हस्तान् स्कन्धानुरूनपि तराम् भित्त्वा गदा दैत्यास्तानप्यथ जखानत एवं सर्वे हदा दैत्या वज्रायस्तीक्ष्णः सहस्रशः तदो देवान्तकं जग्मुस्तानि वज्राणि सर्वशः सोऽपि बाणं समादाय मन्त्रयामास यत्नदः रौद्रास्त्रेणाद संयोज्य धनुषकर्षणेन तं ससर्जपरसैन्येषु शिवनामाङ्कितं शुभं नादयन् सोध शोध दिशश्च विदिशोऽपि च प्रलयानल प्रलयानलसन्निभः भूलोका देवलोकाश्च भयाद्यादाधिशोदश विनायकस्य सैन्येषु महाकोलाहलोह्यभूद तस्मिन्निपतिदेवाणे पुरुषोघोरदर्शनः निःसृदो भीषणमुखस्त्रैलोक्यम् ग्रासयन्निव जटिलो दीर्घहस्तश्च दीर्घपादो महोदरः धराधरो व्योमगोष्ठो गिरिजिह्वो भयानकः वज्रास्त्रम् भक्षयामास क्षणात्स पुरुषो महान् विनायकम् हन्धुकामो ययौ तस्यान्तिकं क्षणाद् तदो विनायक विनायकशीघ्रम् समायो जयद। मन्द्रेण शतसङ्ख्येन सायके वेगवत्तरे आकर्णकर्षणाद्देवो मुमोच सहसा चकपे तस्य शब्देन तारेण भुवनत्रयं विस्फुविलिङ्गैर्दिशो दग्धा न प्राज्ञा ततोपि किञ्चन पुरुषो जज्ञे तादृशोऽति भयानकः तावुभौ युद्धदो व्योम्नि परस्पर जयैषिणौ धयुद्धम चक्रतुस्थौ महाबलौ भव। न दृश्युचिद यी गणेशपुराणे क्रीड़ाखंडेस्त्रुद्ध नाष्टष्टमोध्याय